ग्ना विष्णो सजोषु सेवावर्धन्तु महाङ्गिनः युग्ने वायभिरागतम् ष्टमे प्रथोष्टमे प्रष्टमे प्रदृष्टमे श्वस्तमे श्राव्योतिष्टमे प्राणस्तमाधीगमे वाक्यमे मनस्तमे चुष्टमे श्रोतञ्चमे चक्षमे मलञ्च मोजष्टमे सहस्तमायुष्टमे धराजमानमे धनोष्टमे में मन में गाल जमय साल जमे और गुण जमे शरीर जमे ज्येष्ठञ्च माधिपत्यञ्च मे मन्यष्ट मे भामश्च मेमश्च मे अम्भश्च मे जयमाजमे महिमाय मे महिमाजमे प्रथिमाय पश्माज मै द्राभियाज मय वृद्धञ्च मे वृद्धेश्व मय सत्यञ्च मय श्रद्धा च मय जगच्च मय धनञ्च मे मे पथञ्च मृभ्यञ्च मृभ्यश्च मे मुक्तञ्च ञ्ज मे वयश्च मे प्रियञ्जमेऽनुकामश्च मे कामश्च मे नो मनश्च मे भद्रञ्जमे श्रेयश्च मे वस्थश्च मे युधश्च मे भगश्च मे ऋणञ्जमे गन्ताज मे शब्दाज मे क्षेमश्च मे हृदिश्च मे विश्वञ्च मे वाञ्ज शुंच में शयन मैं सोभा च मै शुनंंच मे ूर्तमे सोनता च मय पयष्टमय रसष्टमय घृतञ्च मय मधुर मय ऋद्धिष्टमय सुखेतिष्टमय कृतिश्च मय ऋष्टिश्च मे विभुज मय प्रभुज मय बहुज मे भूयश्च मय पूर्णञ्चमय पूर्ण पञ्च मे कृतिष्टमय गोयमाष्टमय नञ्चमय क्षुच्च मय वृहयश्च गास्ल्वास्धू मैं मधुरास् प्रियंगवश मै नवश मैं श्याम गास्रा मै अष्टाय मे मृत्तिकाय मे गिरयश्च मे पर्वताष्टमे सिकताष्टमे वनस्पदयश्च मे हिरण्यञ्च मे यश्च मे शीषञ्च मे प्रभश्च मे श्यामञ्च मे लोहञ्च मे यज्ञश्च कर्मज मे सत्यष्टमर्थस्तमयेवष्टमयिजिष्ट मे गदिष्ट मे श्च महीन्द्रश्च मे भोमश्च महीन्द्रश्च मे सुविता च महेन्द्रश्च मे धनस्पते च महेन्द्रश्च मे पौशा च महेन्द्रश्च मे बृहस्पतिश्च महेन्द्रश्च मे मित्रश्च महीन्द्रश्च मे वरुणश्च महेन्द्रश्च मे महीन्द्रश्च मे रिजश्च महीन्द्रश्च मे मोर्भाजमहीन्द्रश्च मे अगुरुषष्ट मे हृस्विश्च मे राभ्यस्त मेधिपतिश्च महु भागुषष्ट मेन्दर्यामश्च महेन्द्र वायवश्च मे नैत्रावरुणश्च महाश्विनश्च मे पुरिप्रस्थानश्च मे शुक्रश्च मे मन्दीज महाग्रहणश्च निश्च मे हाथ मे राणस्पे उच्च मे भाद मदस्त मे हिंदन मे भ्रष्टमे वरिधिष्ठमे वेदृष्टमे द्विष्टयाष्टमे सुदष्टमे च मदाष्टमे ग्रावाष्टमे सरवस्तम परमाष्टमे धे द्रोणगरसष्टमे वायव्यायजमे भोगृष्टमाधवलीयश्च मागे हवृद्धानञ्जमे गृहाष्टमे चदष्टमे पुरोणाधाराष्टमे भजताष्टमे बहृदश्च मे स्वगागारष्टमे अज्ञष्ट मे घर्माष्ट मे अर्कश्च मे होर्य मे प्राणश्च मे स्वम ष्टमय यज्ञेन कल्पन्तामृत्य मे रामज मे सोमश्च मे यदुष्ट मे देक्षा च मे तपश्च यज्ञेन कल्पेता भाष्टमय वत्साष्टमय प्रविष्टमय प्रवेत मे दृत्यवाच्य मे दृत्यौहित मे पञ्जाविष्ट मे पञ्जाबीत मय त्रिभत्सश्च मय त्रिभत्सा च मय दुर्यवाच्च मै दुर्यौहितमय वष्ठवाच मय वृष्ठौ हेतम भुक्षाय मे वशाचमय गृहक्ष मे वैहच्य ज्ञानो यज्ञेन कल्पदाम चक्षो यज्ञानकल्पता कृष्वार्थ यज्ञानकल्पताम् मनो यज्ञानकल्पदाम्बा यज्ञानकल्पदा महात्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पदा एकादमे तिष्ठमे पञ्च न मे सप्त न मे नव जमे एकादश नमे त्रयोदश नमे पञ्चदश नमे सप्तदश नवदश जमे एकमिगं धनिष्ठमे िषत्यमे चत्वारिमे षश्चत्वारिषत्यमेष्टाचत्वारिषष्टमेवायश्च प्रथमश्चाभिधश्च कृतश्च सुमस्त्रमोऽध्यायव्यष्टियश्चान्त्यायनश्चान्तश्च भुवनश्च भुवनश्चाधिवनिश्च नः सप्त प्रतिषष्टिसहस्रो वा विश्व अद्ध मोलि विश्वस्विदा विश्व नो दवागमंत्र विश्वमस्तद्रविम राजो अस्थम अन्द्र हस्त मोमीत वाजेवाजेदिश्रादार हस्यमध्व्युपदमादयध्वम् तृप्ताया च पथिवयाने वाजः पुरस्तादुदमध्यतो माजो देवागौ हृदभिः कल्पयानि वाजस्य हि प्रथवो न मे जिष्प आशाजपजर्भवेयम् अयःपृथव्याम् पयोपयो दिव्यन्तरे क्षेपयोधाम् अयस्पदे परिदर्शनम् त्वमह्यम् संवासगामिमयसाक्षरेण संवासजा यमपोषधेवाचकुंसनेयमग्ने नोषा सा समनसा विलोपे धापये तेषु मेघकुंसमेति रुक्मा अन्तर्विभाजे वान्धायन्तविनोदाः समुद्रो जिनभस्वादः शम्भोर्म यो भोरभिमा वा हिस्वाहातः गणः शम्भोर्म यो भोरभिमा वा हि स्वाहायो भोरभिमा वा हि स्वाहाय्यशवदाभृ सुवर्णम् वयसा बृहन्तम् येन वयम् पदेम प्रधश्च विष्टपुंसुवोरुनाधियाय उत्तमे क्षा वचनपद्यागस्य भाग्रस्य पुराः समर्गया निरन्तर्द्रक्षस्य हिरण्यवक्षस्य गुणाभुरण्यम् महान् ध्रुवः निरत्तः नमस्ते अस्तु मामारिसे विश्वस्य मोर्धन् न श्रुतः अमुद्याय हृदयमन्तरा यद्या वा पृथिवी भुवनेष्वर्प्यजे रुद्रा दत्त्वा दिम्भिन्ददिवः पर्जन्यादन्तरिक्षात् पृथिव्याष्ट्या वद पृथिव्यानाभिरोर्घपामोषीयाम् विश्वायः शर्म सत्प्रधानमस्पथे येन सत्तमाधेन्धानाभन्तः पुत्रे तस्मिन्नहन्निर्नवीक्षामर्भेम् गृह्णा सुकृतस्य लोके पृष्ठे अधिरोगे मध्यमनुभक्तुरन्य सत्त्वन्यवः अयमज्ञमोहयोधाः सहस्त्रियो जेप्यधाम प्रयच्छन् विभ्राजमानस्य विरस्य मध्यमोपया च दिव्यानिधाम संरच्च वध्यमनुसंयाज्ञोदयम् कृणध्वम् अस्मिन् अध्युत्तरस्मिन् विश्वे जयभा सहस्रम् वहति येन आज्ञेदसम् र्गस्ता वितरय्यमानमन्नादायन्तमेताम् अयन्ते यो, यो, यो जातो अरोचधाः जानन्नरोधया अयम् स्तु वयम् त्रेन्धानास्थवम् पुषेण पदनायवा विहवे सन्धर्मविष्टः कम्बाफलकामे अस्मिन् मयि देवायद्रवि नयिरस्तु मयि देवभूतिः ये व्याहोता राम निर्मेष्टाम धनुवाः पठ्यङ्गजन्तः सत्यामन सोमे अस्तु ये मौमानिनाङ्गे देवाभिमे ऋणक्रमाय विश्वे देवालय हवेरय ध्वम् स्मह प्रजयामा नर्मण्यम् प्रजलम् पुनस्ता गोपाः परिपाहिनस्त्वम् प्रत्यम् चोयन्तु निगतः पुनश्चाम् चित्तम् प्रमुखा विनेश धाताधातुनाम् भुवनस्य वितार ज्ञमश्विभान्जानो सरस्मिदः पुरुक्षो प्रजाये हृयामाणो रीर्णो मापराधाः यः सपत् राभवन्निर्ग्निभ्यामवाधामहेतान् वसवरुद्रा निद्यापरिस्पृतम् अर्वान्त्वर्मन्द्रे प्रथमस्य प्रचेरोऽयम् पाञ्चलन्यम् बहवस्तुमिन्धजे विश्वस्याम् विषप्रविशभागम् स मेमहे समामम् जक्तगोहः यस्केवलम् प्राणन्यस्वृतो होगन्दासुरामञ्जत्वगुंहसः यः सङ्ग्रामोन्नयजितम् वशे युधेयः पृष्टानि सकम् शजनेत्रयाणि सौमेन्द्रो हवे मिष नाम्याधव ग्राधानामञ्च नमागतः दूषयन् सौमित्रावरुणानाधिलोजो भवे मितो नामञ्च नमागसः धर्मेरन्नामञ्चदमागतः भवन्तश्वेतेनो मुञ्जन्तेन सह यज्ञमायुधम् वेदगम् सहस्तद्दिव्यगम् सर्धः प्रतनासु जिष्णो देवान् मरुतो नाञ्चन्तेन सह देवानाम् प्रेमा भवन्ति विश्वे आशो नेवा मुञ्चन्तेन सह यदिशोचलिपौरुषे येन देव्येन सोमि विश्वानान् देवान्ना हवेतेनो मुञ्चन्तेन सह अन्यानुपदन्त्या पृष्ठो दिविजिजो भतिष्ठे अपमदाम् वसूनाम् सोमिद्यानापृवेणाभितोजो हवेमितेनो मुञ्च नमगुभदः उर्वेरोदशे वलिवक्ष्णोङ्क्षेत्रस्य पत्नीयातम् यच्च वयम् पुरुषत्रायमिष्ठाविद्वायुम् च कृमागच्छनागः विश्वयज्ञे यथाहसत्त्वसमो गौर्यञ्चि त्वरिषदामुञ्चदायत्राः क्रमञ्जाव्यगो महप्रानार्यज्ञे प्रतराज्ञायुः ओ चतुर्थकाण्डः समाप्तः